एण्त्यञ्जावद् जरासंत वदमं राजसूयमम् ततो चिरनिरोध मगदभूभृता चिरनिरोदसङ्क्लेशितम् चाष्टकयुतायुत अनात अनातचरणायते कमपि पूरुषम् प्राहिणो अयाचत समागत क्षपणमेव किम्बूयसा इया सुरदिमागदम् तदनुनारदोदिरीता युदिष्ठिरमहोत्यमः दुबयकार्यपर्याकुला विरोद्धजयिनोद्वरा दुबयसिद्धिरित्युद्धवे स संसुषि निजै समम् पुरमियेतयौदिष्टिरीम् अशेष दयितायुते त्वयि समागते धर्मजो विजित्य स गजैर्महे भवदपाङ्गसंवर्धितै श्रियम् निरुपमाम् वहन् अकः भक्तदासायितम् भवन्तमपि मागते प्रहितवान् स भीमार्जुनम् गिरिव्रजपुरम् गता यया समरोत्सवम् द्विजमिषेन तम् आगतम् अपूर्ण सुकृतम् त्वमुम् पवनजेन सङ्ग्रामयन् निरीक्षसखजिष्णुना त्वमपि राजयुद्ध स्थिता अशान्त समरोद्धतम् विटपपाटना सञ्ज्ञया निपात्य पवनजेननिष्पाटितं पवनजेन निष्पाटितम् विमुच्य नृभतीन्मुदा समनुगृह्य भक्तिम् पराम् दितेशितगतस्पृहान् अपि सकलराजकव्याकुलम् त्वमप्ययि जगत्पते द्विजपधावनेजादिकम् सकर्त किमुपत्यते नृपवरस्य वाक्योन्नतीम् ततः सवनकर्मणि प्रवरमज्ञपूजाविधिम् विचार्य सखदेव वा गनुकतः स धर्मात्मजा व्यदत्त भवते मुदा सतसि विश्वभूदात्मने तथा सुसुरमानुषम् भुवनमेव तृप्तिम् ददौ ततः सपति चेति भो मुनिनृपेषु दिष्टस्वहो सभाजयति को जट पशुपदुर्दुरूटम् वटुम् इति त्वयि स दुर्वशो विततिमुद्वमन् आसन उदापददुदायुध समपदन् अमुम् पाण्डवा निवार्य निजपक्षकान् अभिमुखस्य विद्वेषिण त्वमेव जकृषे शिरो धनुजदारिणा स्मारिणा जनुस्तृतय शुद्ध धी त्वयास या सरमेकता अदृत योगिना दुर्लभा तत सुमि क्रुतुवरे निरूटे जनो ययो जयति कृष्णी कल सतु सुधनो दुतमना स न श्रिया मयार्पितसभामुके स्थलजलप्रमादब्रमे तदा हसितमुत्थितम् धृभतनन्दना भीमयो अपाङ्गकलया विभो किमपि तावदुजृम्भयन् कराभरनिरागृतो जनार्दनमरोत्पुरे निलय पाहि मा मामया भज गोविन्दम्